हरि ओम् श्रीसीतारामचन्द्रभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्ड एकविंश सर्ग लक्ष्मणस्य रोषो भ्राद्राज्यम् स्वायत्तीकर्तुम् तेन रामस्य प्रेरणम् श्रीरामेण पितुराज्ञाया पालनम् नैव धर्म इति प्रतिपाद्य मातुर्भातृश्च प्रतिबोधनम् तथा तु विलपन्तीं ताम् कौसल्यां राम मातरम् उवाच लक्ष्मणोदीन तत्कालसदृशं वचः न रोचते ममाप्येतत् आर्ये यद्राघवो वनम् त्यक्त्वा राज्य श्रियं गच्छेत् स्त्रिया वृद्धश्च विषयै च नृप किम् इव न ब्रूयात् चोज्यमान समन्मथ न स्यापराधम् पश्यामि नापि रोषम् तथाविधम् येन निर्वास्यते रासात् वनवासाय राघव न तम् पश्यामहं लोके परोक्षम् अपि यो नरः स्वमित्रोऽपि देवकल्पम् ऋजुम् दान्तम् रिपूणामपि वत्सलम् अवेक्षमाण को धर्मम् त्यजेत्पूत्रम् अकारणात् तदिदम् वचनम् राज्य पुनर्बाल्यमुपेयुष पुत्र कुरु कुर्यात् राजवृत्तम् अनुस्मरन् यावदेव न जानामि कश्चिदर्थम् इमम् ताव देव मैं साधम आत्मस्थम कुर शा पाश्वे मैयाधनु तव गुप्त राघव कस्म कर्तव निष्याम अयोध्या मनुजष कर क्या चरे तीक्षण यदि सा भरत सो वो वित्छ सर्वा बधीक्षा मृदुर्भूयती प्रोत्साहय कैकेय्या संतुष्टो यदि नीता अमीरभू तो निसंगम बध्यता गुरप्यविप्त कार्यकार्यमजानत उत्पथम् प्रतिपन्नस्य कार्य भवति शासनाम् बलम्बे च किमाश्रित्य हेतुं वा पुरुषोत्तम दातुमिच्छसि कैकेयै उपस्थितमिदं तव त्वया चैव मया चैव कृत्वा वैरम् अनुत्तमम् शक्ति श्रियं दातुम् भ्रता यिशासन अनरक्तोस्मिभावेन, भावेन धातरम् देवि तत्सतः सत्येन धनुषा दत्ते नेष्टेन ते शपे दीप्तम् अग्नीम् अरण्यम् वा यदि राम प्रविक्षे प्रविष्टम् तत्र माम् देवि सम्पूर्वम् अवधारय हरामि वीर्याद्दुःखम् ते तमः सूर्यै बोधितः देवी पश्यतु मैवीर्यम् चैव पश्यतु अनीशे पितरम् वृद्धम् कैकेय्यासक्त मानसम् कृपणं च स्थितम् बाल्ये वृद्धभावेन गर्हितम् एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः उवाच रामम् कौसल्य शोकलालसा भ्रातु ते उदतः पुत्रे लक्ष्मणस्य श्रुतम् तया यदत्रानन्तरम् तत्त्व कुरुष्व यदि रोचते न चाधर्म्यम् वच श्रुत्वा स मम भाषितम् विहाय शोकसन्तप्त गन्तु मरसि मामितः धर्मज्ञ इति धर्मीठ धर्मम् चरितुमिच्छसि शुश्रूष माम् ह्यस्त त्वम् चरधर्मम् अनुत्तमम् शुश्रूषुर्जननी पुत्रे स्वगृहे वसन् परेण तपसायुक्ते काश्यपरस्त्री दिवङ्गतः यथैव राजा पूज्यस्ति गौरवेण तथा ययम् तां ताहम् नानुजानामि न सद्योगान् मे कार्यम् जीवितेन सुखेन च सया सह मम श्रेये ऋणानामपि भक्षणम् यदि तम् यास्य जीवनम् त्यक्त्वा मां शोकलालसाम् अहम् पुत्र निरयं लोकविश्रुतम् ्रह्मस्यामिव धर्मा समुद्रसरिताम्पतिः विलपन्तीं यथा दीनां कौसल्यां जननीं ततः उवाच रामो धर्मात्मा वचनं धर्मसंहितं नास्ति शक्तिः पि दुर्वाक्यं समतिक्रमितुं मम प्रसादे तां चिरस गन्तुमिच्छाम्यहं कृषिणा च पिदुर्वाक्यम् कुर्वता वनचारिणा गोर्हता जानत धर्मम् कण्डूना च विपश्चिता अस्माकं तु कुले पूर्वम् सगरस्यान्यया पितुः खनद्भिः सागरेर्भूमिम् अवाप्तय सुमहा वध जामदग्नेन रामेण रेणुका जननी स्वयम् कृत्ताय परिशनारण्ये पितुर्वचन कारणात् एतै देवी देवस मे कृतम् पितुर्वचनम् अक्रेमम् क्रियते पितृशासनम् एतै अपि देवी ये मया नाहम् धर्मम् पूर्वंते प्रतिकूलं प्रतिकूलम् प्रवर्तये पूर्वैयम् गतो मार्गो तदेशत्तु मया कार्यम् क्रियते भुवि नान्यथा पितुर्हि वचनम् कुर्वन् न कश्चिन्नाम हीयते तामेव मुक्त्वा जननीम् पुनरब्रवीत् वाक्यं <Sess> वाक्यविधाम् श्रेष्ठ वाक्य श्रेष्ठ धनुष्मताम् तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम् विक्रमम् चैव सत्यम् च तेजश्च सुदुरासनम् मम मातोर्महद् दुःखम् अतुलम् शुभ अभिप्रायं न विज्ञाय सत्यस्य च शमस्य च धर्मो हि परमो लोके धर्मे सत्यम् प्रतिष्ठितम् धर्म संस्कृतमप्येत पितुर्वमम् संस्कृत्य च पितुर्वाक्यम् मातुर्वा ब्राह्मणस्य वा न कर्तव्यम् उथ वीरे तिष्ठताय सोऽहं पुनरे नियोगम् अतिवर्तितुम् पितुरी वचन वीर कैकय्याहम् प्रचोदितः तदेतां विसृजानार्यां चत्र धर्माश्रिता मतिम् धर्मम् आश्रय मां तैक्ष्णम् मद्बुद्धि अनुगम्यताम् तमेव मुक्त्वा सौहार्दात् भ्रातरम् लक्ष्मणाग्रजः उवाच भूय कौसल्याम् प्राञ्जलिः शिरसानतः नुमन्यः स माम् देवि गमिष्यन्तम् विधो वनम् शापितासि मम प्राणे कुरु स्वस्य इनानि मे तीर्णपतिज्ञश्च वनाय पुनरेष्याम्यहम् मात हृदये साधुमाशु वनवास निहयिष्यामि पुनः कृत्वा पितुर्वचः त्वया मया च वैदेह्य लक्ष्मणेन सुमित्रय पितुर्नियोगे तातव्यम् एष धर्मसनातनः अम्बसंहृत्य संहारान् दुःखम् हृदि निगृह्य च वनवास कृता बुद्धिः मम धर्म्यानुवर्त्यताम् एतर्व च तस्य निशम्य माता सुधर्म्यम व्यग्रमपि विक्लवम् च मूर्तैव संज्ञां प्रतिलभ्य देवि समीक्ष रामम् पुनरित्युवाच यथैव ते पुत्रपिता तथ गुरुस्वधर्मेण सुरुतया च न स्वानुजानामिन्मां विहाय सुदुःखिताम् अर्हसि पुत्र गन्तुम् किम् हविय मे लोकेन वा किम् स्वधयामृतेन श्रियो मुहूर्तम् तव सन्निधानम् ममैव कृष्णानपि जीवलोकात् नरैरिवोल्काय विरपोह्यमानो महगजोधान्तमभि प्रविश्य भूय प्रज्ज्वाल विलापमेवम् निशम्यराव करुणं जनन्या रमातरम् चैव विसन्नकल्पाम् आट्टम् च सोमी स्त्रिमभि धर्म्यमुवाच वाक्यम् यथा स्वति तत्र वक्तुम् अहमी चे लक्ष्मणनित्यमेव जाना भक्ति पराक्रमं च मिप्रा असंरीक्ष सहाभ्यदीम सुख धर्म काम खरु जीवलोकता धर्म फलोदय सर्वेशय भैश्यामता सपुत्र यस्मिन्सु सर्वेषु असन्निविष्टा धर्मो यत् स्या तदुपक्रमेत वेश्यो भवत्यर्थपरो हि लोके कामात्मता कर्वपि न प्रशस्ता गुरुश्च राजा च पिता च वृद्ध क्रोधात्रिकामात् यद्व्याधि चेत् कार्यमवेक्ष्य धर्मम् कर्तं न कुर्याद नृशन् च वृत्ति न तेन ना शक्नोमीपि तु प्रतिज्ञाम् इमां तु कर्तुम् सकलां यथा वेत् गुरुनियोगे देव्याश्च भर्ता सगती च धर्मे तस्मिन् पुनर्जीवति धर्मराजे विशेषत स्वे पथि वर्तमाने देवि मया सार्थमितोऽभिगच्छेत् कथम् स्विदन्या विधवे वारी सा मानुमन्यस्वनम् व्रजन्तम् कुरुष्व न स्वस्य जनानि देवि यथा समाप्ते पुनराव्रजेयम् यथा हि स्वस्ते पुनर्ययाति यशोह्यम् केवलराजकारणान् न पृच्छत कर्तुमलम् महोदय अदीर्घकाले न तु देवि जीविते वृणैव मध्यमही मधर्मते प्रसादयन्नरवृषभे स वातरम् पराक्रमाजिगमिषूरेव दण्डकान् अथनुजं वृषमनु च चकारतां दृतिमजननीम् इत्याशी श्रीमद्वाल्मी श्रीमद् रामायणे वाल्मीकि आधिकारे अयोध्याखण्डेकविंश सर्गे श्रीसीतारामचन्द्रार्पणमस्तु